द्यशीतितमः सर्गः तामार्यगणसम्पूर्णाम् भरतः प्रग्रहाम् सभा ददर्शबुद्धिसम्पन्नः तदा वस्त्राङ्गरागप्रभया द्योतिता सा तथा अभदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी राज्ञस्त्व प्रकृतिः सर्वाः सम्प्रेक्ष्य च धर्मवित् इदं पुरोहितो वाक्यं भरतम् मृदु चाब्रवीत् तात राजा दशरथः स्वर्गतो धर्ममाचरन् धनधान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तवा रामस्तथा सत्यवृत्त्यः सताम् धर्ममनुस्मरन् नाजहात्पितुरादेशम् शशी ज्योत्स्नामि वोदितः पित्रा भ्रात्रा च ते दत्तम् निहतकण्टकम् तद्भुं क्षिप्रमेवाभिषेचय उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः कोट्यापरान्ताः सामुद्रारत्नान्यपहरन्तु तच्छ्रुत्वा भरतो वाक्यम् शोकेनाभिपरिप्लुतः जगाममनसा रामम् धर्मज्ञो धर्मकाङ्क्षया स बाष्पकलया वाचा सस्वरो युवा विललापसभा मध्ये जगर्हे च पुरोहितम् चरितब्रह्मचर्यस्य विद्या धीमतः धर्मे प्रयतमानस्य को राज्यम् कथम् दशरथाज्जातो भवेद्राज्यापहारकः राज्यम् चाहम् च रामस्य धर्मम् वक्तुमिहार्हसि ज्येष्ठ श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः लब्धुमर्हति राज्यम् दशरथो यथा अनार्यजुष्टमस्वर्ग्यम् कुर्यां पापमहम् यदि इक्ष्वापूणामहम् लोके भवेयम् कुलपांसनः यद्धि मात्रा कृतम् पापम् नाहम् तदपि रोचये इह स्थो वनदुर्गस्थम् नमस्यामि कृताञ्जलिः राममेवानुगच्छामि सलाजाद्विपदाम् वरः त्रयाणामपि लोकानाम् राघवो राज्यमर्हति तद्वाक्यम् धर्मसंयुक्तम् श्रुत्वा सर्वे सभासदः हर्षान्मुजुरश्रूणि रामे निहत चेतसः यदि त्वार्यम् न बलात् वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा सर्वोपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् समक्षमार्यमिश्राणाम् साधूनाम् गुणवर्तिनाम् विष्टिकर्मान्तिकाः सर्वे मार्गशोधकदक्षकाः प्रस्थापिता मया पूर्वम् यात्रा च मम रोचते एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः समीपस्थमुवाचेदम् सुमन्त्रम् मन्त्रकोविदम् तूर्णमुत्थाय गच्छत्वम् सुमन्त्रमशासनात् यात्रामाज्ञापय क्षिप्रम् बलम् चैव समानया एवमुक्तः सुमन्त्रस्तु प्रहृष्ट सोदिशत् सर्वम् यथा सन्दिष्टमिष्टवत् ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षाबलस्य च श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ततो योधाङ्गनाः सर्वा भर्तॄन् सर्वान् गृहे गृहे यात्रागमनमाज्ञाय त्वरयन्ति स्म देहयैर्गोरथैः शीघ्रम् स्यन्दनैश्च मनोजवैः सह योषिद्बलाध्यक्षा बलम् सर्वमचोदयन् सज्जन्तु तद्बलम् दृष्ट्वा भरतो गुरुसन्निधौ रथम् मे त्वरयस्वेति सुमन्त्रम् पार्श्वतोऽब्रवीत् भरतस्य तु तस्याज्ञाम् परिगृह्य प्रहर्षितः रथम् गृहीत्व पयौ परमवाजिभिः सरागवः सत्यदतिः प्रतापवान् ब्रुवंशुयुक्तम् दृढसत्य विक्रमः गुरुम् महारण्य गतम् यशस्विनम् प्रसादयिष्यन् भरतोऽब्रवीत्तदा तूर्णम् तमुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधाना आनेतुमिच्छामि हितम् वनस्थम् प्रसाद्य रामम् जगतो सूत पुत्रो भरते नजगा ज्ञापि सूर्ण काम शर्वान्कृति प्रधान बल बलस्य मुख्यांहृज्जनम चत सय कुले कुले ते तेराज वैश्या वृशलाश विप्रा अयोयुजन्ष्ट्ररथा खरां नागांश कुल प्रसूता इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डेऽशीतितमः सर्गः